मिरे मदत्य तापतो यः कृष्णगर्भा निरहन् ऋजस्वरा अवश्य वो वृषेणम् वज्रादक्षिणम् मरुत्वन्तम् सच्याय हवामहे योग्रम् सञ्जाषाणेन मञ्जुनायः सम्बारञ्जो अहम् विप्रो मराम् इन्द्रो यः सुष्णा मधुषण्यावृणम् मरुत्वन्तम् सच्याय हवामहे ्याः पृथिवीपौंस्यम् महद्यस्य हृते वरुनो यस्य सूर्याः यस्येन्द्रस्य सिन्धाभस्तश्च निम्भ्रतम् मरुत्वम् तम् सख्याय हवामहे यो अश्वानाम् योगभाम् गोपादर्वशीलः रिरः कर्माणि कर्मणि स्थिरः देवास्तिन्द्रय असम्मतो वधो मरुत्वम् तम् सख्याय हवामहे यो विश्वस्य जगात प्राणतस्वदर्यो ब्रह्मणे प्रथमो गाविम् तत् इन्द्रयो तस्यो ग्रधराम् नवातेरम् मरुत्वम् तम् सख्याय हवामहे यः सूरेभिर्हव्यो यश्च भीरुभिर्योधावद्भिरुभूयते यश्च दिव्युभिः भी। किम् निस्ताहुवानामि सन्तत्पन्तम् दक्षाय हवामहे रुद्राणामेरि प्रदिशामिदक्षणो रुद्रेभिर्योषातमदे पृथ्रजाः इन्द्रम् मनीषा अभ्यर्थति श्रुतम् मरुत्पम् तम् सख्याय हवामहे यद्वा मरुत्पः परमे सधस्थे यद्वा ममे वृजने मातगासे अथायाद्भरम् नो अच्छात्वाया हविष्टक्रमा सत्यम् करोमम् शृणुमा सुदक्ष त्वाया हविष्टक्रमा ब्रह्मवाह यत् तस्य गानरुद्भिरस्मिन् यज्ञे बलिगिटी मादयस्व मादयस्व हरिभर्येत इन्द्रविश्वस्तप्रेमि श्रेजस्वधेने आत्मा सुप्रहरायो वहन्तु सन्ध्रव्यानि प्रतीनो जुढस्व मनस्सोक्तस्य भजनस्य गोपा वयमिन्द्रेण सनुजामवाजम् रो नामा महान्दा मदेश्यन्धुः पृथिवी उदद्योः इमाम् ते धियम् प्रभारे महोमहीमस्य स्तोत्रे धिगणायत्तनये तमोत्सवे च प्रसवे च सा सहिमिन्द्रम् देवासश्रव सा मदन्न अस्य श्रवा नद्यस्तप्तबिभ्रदिद्या वा क्षा वा पृथिवी दर्शकम् वभोः अस्मे सोर्यासम् रमसाभिकक्षे श्रद्धेरमिन्द्रजनतो विदर्तुराम् तरम् स्वारथम् मघभन् पावा सातये देत्रन्ते हनुमदामसङ्कमे आजाना इन्द्रमनसा पुरस्कृतत्वायद्ध्यो मघभार्मा यच्छनः भजञ्जाये भक्तया युजावृतामस्माकम् समुदा मा भरे भरे अस्मभ्यामिन्द्रपरे वस्तुगमरेणामघमन्विष्ट्या रुज माहव मानाजनाय मेधनाम् भत्तरवसा विभन्यवाः अस्माकम् स्मारसमादिष्टसातये ज्मा नेत्रम् वीन्द्रनिभृतम् वनस्तव भोगिकाः बाहु अमेद्रदस्य मत्कर्म कर्मन् निर्खगङ्करः कर्मन कल्पयन्द्र प्रतिमा नमो जसा जनामित्पायम् जय दुषासमाः मुक्ते सतान् माघवन्नुच्चभूय समुत्सहस्राश्रवाः मात्रम् त्वािणे मह्यथाः वृत्तानि जिघ्नदे पुरन्दर िता सुप्रतिमा नमो जासस्तिस्रो भूमेन्द्रपथे त्रीणीलोचनातीदम् विश्वम्भुगारम्बभक्षिथा सततरिन्द्रजनुषा सकादशी त्वाम् देवेषु प्रथमम् भावामहे समतरकाश्रीः हे मल्ल्यः कारमोपमन्यमधुतमिन्द्रः कृणोदप्रसवेरसम् पुरः त्वम् जी जे धन धनारुधिता द्वे श्वाजामाधवन् महत्सूच पामुद्र मम शेषंसे से पस्य नयन् नवेषु चोदय विशो हेन्द्रो अधिभक्तानो अस्तपरि कृदासमाजम् जगन्ना मित्रावरुणा वा तत्र इन्द्रियम् बम्ब राते रथा आनयन्त कमलः पुरेलम् क्षमेलमन्यद्दिव्या अन्यदस्य समीपृच्छदेव केतुः सधा आलयत् पृथिवी मप्रदच्छभद्रेण हताभिरपश्च सद्यमभीनद्रौहिणम् यहन्यम् सम्मख वासचीभिः जातु भगम् मा श्रद्धा नमोजः पुरो विभिन्नम् न च रद्विदासीः विद्वान् मध्यन्दस्य मे हेतिमस्यांसहो वर्धयाद्युम्नमिन्द्र तदोचक्षेमा नो क्षेमा युगानि कीर्तेण्यम् मघवानामभिभ्रत् मम प्रयन्दस्य तदस्येतम् पश्यता भूरि पृष्टाम् गा आविन्दत्स आविन्दत स्वाम् सरोधी सोऽहसबलानि भूरि कर्मणे वृषभाय कृष्णे सत्य कृष्णाय सुन वा सोमम् यथा दत्याः परिपन्थे वसूरो यद्मनो विभजन्ते ेवीर्यम् जगर्थयत्स सन्तम् वज्रे न बोधयोऽम् अनुत्वा पत्नीर्हृम्बयश्च विस्ते देवासो अवदन्न नृत्वा सदृशाम् व्यक्रम् कुयामम् वृत्तविन्दयदार्विपुरः संभारस्य मित्रो वरुणो वा महन्ता मदे निःसिन्धुः पृथिवी पुरद्योः योनिष्ट इन्द्रनिषदे अकारितमानुषीय स्वानो नार्वा विमुञ्च्यामया वसाया स्वान् दोषावस्तामहीयसप्रित्ते भोद्येन रीन्द्रमोदये ध्वनो चित्तान् सद्योध्वनो जगम्यात् देवासो मन्यम् दासस्यष्टम् नानेयः आगच्छन्सु विगायवन्नम् अवत्मना भरते चेत वेदा अवत्मना भरते फेन बुदान् क्षीरेण स्मक्कु च वस्तुजोषे हते ते स्याताम्रमणे शिभायाः युजोपनाभिरुपारस्यायोः प्रपूर्वाभिस्थिरते राष्टिसूराः अञ्जसी कूलिशि वीरपत्नीकयो हिन्माला बुदभिर्भरन्ते दियच्छानीतादर्शिवस्यो लो कोणाच्चादुदानम् जानदीकात् अथस्मानामघमजर्कृता जन्मानामघेव निष्वीपनादाः स त्वम् नयन्द्रोर्येदो आप्तस्त आभाजीव संसे माम् ताराम् भुजमानी नः श्रद्धी दन्ते महतयम् विजाय अधा मन्ये स्रदे अस्माधा जिवृषाजोदस्तमहते धनाय मानो अग्रदे पुरुहूधजो नावीन्द्र क्षुध्यभ्यो मया सुदिन्दाः मानावधीरिन्द्र मापरा धा मानः प्रिया भो जनानि प्रमोषीः माण्डा मानामघवाञ्चक्रणिर्भे सहजा अर्वाणे हि सोमा कामन् त्वाहुरयम् सुरस्तस्यापि पावदाय रुजा दठ रा दश्रुणिः हूयमानः चन्द्रमा स्वा अन्तरासु बान्धो धावदे नभो हिरण्ये मयः पदम् न्धि विद्युतो वित्तं मे अस्य रोदसी अर्थविद्वावो अचिराजायुवतिम् तुल्याल्यम् पयः परिदा जलसन्दृहे वित्तम् मे अस्य रोदसी मोर्ले वा अदस्वा अरबपादि दिवस् त्तं अस्य रोदसी निर्गम् पृच्छाम्य मम सतद्धूतो वि रोदसि ऋतम् भूर्वम् गतङ्कस्तद्भिोदानो वित्तम् मे अस्य रोदसी अमीये देवास्तन दृष्ट्वा रोदने दिवः पत्मबाहोजर्मित्तम् मे अस्य रोदसी ृतस्य धर्मसि गर्बरुणस्य चक्षणम् पदर्यम् न महस्तथाधिक्रामे मधूढ्यो वित्तम् मे अस्य न रोदसी अहङ्गयः पुरा सुदेवताभि कानिचित् सम्मान्यञ्चाध्यो ओ मृगो न दृष्टजम् मृगम् वित्तम् धर्म्यभितः पत्नीरिव परिशावः मूर्शिष्टा व्याजन्ति मार्ध्यस्तोदारम् ते स चक्रतो वित्तम् मे ए अस्य रोदसी अमीये संसरस्त यस्तत्रा मेनाभिराजतास्तद्दे राज्यस्तय रेभति अमीयेव मध्ये दस्तुर्महो दिवः देवत्राणुप्रवाच्यम् सद्धि दीनानि वा प्रदुर्वित्तम् मे अस्य रोदसी आरोधाने दिवः देशे सन्ति पथोमृकान्तरम् पञ्जस्पतीरपो वित्तम् मे अस्य व्यन्त दुःख्यम् हितम् देवादस्वप्रवचनम् दृढमरिषन्ति सिन्धव सत्यन्ता दानसूर्यो वित्तम् मे अस्यरो ओदशी आज्ञेदवत्य दुःख्यम् देवेष्वस्याप्यम् सरस्रतो वादेवालक्षि विदुष्टरो वित्तम् मे अस्यरो सत्तो होता मनुष्पदा देवा विदुष्टरः अज्ञर्हव्याधूषोदधि देवो देवेषु मे धीरो वित्तम् मे अस्य रोदसी ब्रह्मा गृणोदि वरोणागाधुविदन्तमीमहे यो नोदि हृदा मजिम् नव्यजायता मृतम् वित्तम् मे अस्य असौ यः पन्था नित्यो दिविप्रवाच्यम् कृतः दश देवाधिक्रमेकम् भर्ता सोनपस्य च वित्तम् मे अस्य रोदसी त्रियः कूपे वा हितो देवास्रावबृहस्परिः कृणम् घोरणाधुर्वित्तम् मे अस्य रोदसी अरुणो मा निजाह्यादष्टे दृष्ट्या मयी वित्तम् मे अस्सरोदसी येन घोषेण भजमिन्द्रमन्तोऽभिष्ट्याम भजने सर्वा वीराः सन्वामित्रो वरो नामामहन्ता मदे दश्यन्धुः पृथिवी उदाज्योः इन्द्रम् मित्रम् वरोणमग्विभूतये मारुतम् सर्ध्वो अतीतिम् भवामहे नदुर्गात् तवस्तु दानवो विश्वस्मान्नो अम्भासोऽष्टीवर्तनादित्या आगता सर्वदातये भूतदेवावृद्धतोर्येषु शम्भुवाः क धर्म दुर्गा म् वाजिनम् वाजरम् निहक्षयद्वीरम् भूषणम् सुन्नैरीमहे न सन्न दुर्गात्मादवस्तुला न भोविस्तस्मान्नो अम्ना सोऽष्टिभक्तना बृहत्पथे स धमिन्नः सुखम् कृधिन्यार्ये मदर्हितम् दधीमहे न धन्न दुर्गात्मा तमस्तु दान भो विश्वस्मान् न अह्न सोनिष्ठी वर्तनो रत्नाम् स जीपतिम् काढे देवैर्मा देव्यदेपासु देवस्त्रादाम प्रायुच्छन् हन्मा मित्रोऽवरो नामामहन्तामदीयसिन्ध्वः पृथिवी सुदद्योः यज्ञो देवानाम् प्रत्यये सुन्दमादित्या सौ भवताम्रलयन्ताः आभोर्वाचीमजर्मा वृत्या दम्भोऽस्तिद्यापरिभो वित्तरा सत् उपनो देवा अवसागामन् पङ्गीरसाम् रामाभिस्तूयमानाः इन्द्रा इन्द्रियैर्मरुतो आमरुद्धीरादित्यैर्वा अतिदिशः शर्मा अम्सत् नयेन्द्रस्तद्वरुणस्तदर्ग्यस्तदर्जमा तत्स विताचनोऽधात् सन्वामित्रो वरुणो मामहन्तामदेश्यन्धुः पृथिवी सुदद्योः याग् मोरसो वामभि विश्वानि भुवानानि दष्टे येनायातम् सरसम् दशिवाम् साधा सोमस्य विपदम् सुतस्य ुव्यमस्त्यो रोग्यसा परिवसा गभीरम् आयम् पाद वेसोमोह अस्तरामिन्द्राज्ञेमनाशे जुमभ्याः सक्रासे हि सध्या अङ्गाम भद्रम् सध्रे जीनावृत्रहला कुतस्ताः इन्द्राग्निषभ्यम् जाने न ज्ञा न सोमस्तृषणा प्रेडेथा स्वमिध्येष्वग् निष्वा न जाना यत श्रोजा बर्हिरोधिस्तिरानालेन्द्राग्ने गौ मनसा जा जातम् ज्ञानीन्द्राग्ने रूपालवृष्ट्यानिवाम् भक्त्राणि सख्या शिवानि तेभिः सोमस्य पिपदम् सुतस्य यदब्रामम् प्रथमम् वाम् प्रणालो ओयम् सोमो असूरयेल्म सुतस्य ेवस्वे दूरोणे यद्ब्रह्म निराजा निवाय जत्रा अतः परिमिष नापाहि जातमथा सोमस्य पिपदम् सुतस्य यदिन्द्राज्ञीयदोषु दुर्वशेषु यद्दृश्यश्वनोषु भूरुषु स्तः ततः परिमिष नापाहि जातमथा सोमस्य विपदम् सुतस्य यदिन्द्रामस्याम् पृथिव्याम् मध्यमस्याम् परमस्यामुदास्तः अधः परे वज नाभाहि जातमधा सोमस्य पिपदम् सुतस्य यदिन्द्राज्ञी परमस्याम् पृथिव्याम् मध्यमस्यामवस्यामुदस्तः अधः परे वज नाभाहि जातमधा सोमस्य पिपदम् सुतस्य यदिन्द्राज्ञी निविष्ठो यत् पृथिव्याम् यत्पर्वत्सु अतः परे वृण नामाहि जातमथा सोमस्य पिपदम् सुतस्य यदिन्द्राज्ञी उदितासूर्गश्च मध्ये दिवस्वधया मादयेथे अतः परे वृण नामाहि जातमधा सोमस्य सुतस्य ेवेन्द्राग्ंसा स्वमभ्यम् सञ्जायतम् धनानि अनन्मा मित्रावरो ना मामहम् कामदे दिश्यन्धुः पृथिवी उदद्योः विह्यक्षम् मनसामस्या इच्छन् निन्दाज्ञे ज्ञास उपवास जाता नान्यायुव प्रमादिरस्मि जयन्ति मदक्षम् अश्रवम् विभू ऋत्तराभाम् पिता मातु ऋतवाघास्यात् अथा सोमस्य प्रजाति युपभ्यामिन्द्राग्ने स्तोमम् जनयामिनव्यम् माच्छेद्बरस्मे मानास्पि नो वदन्तिका इत्यग्नि धिषणाया उपस्थे युपाभ्याम् देवी धिषणामदालेन्द्राग् सोमा मु सती सूनोति तावस्ति न भद्रहस्ता सुपाणी आधातम् मधुना विभागे समस्त सद्याः बर्हिषी लङ्गे अस्मिन् प्रचर्षणीवारयेताम् सुतस्य प्रदर्षणीभ्यः प्रतदाहवेष प्रपृथिव्यारे विजाते दिवश्च प्रचभ्यः प्रगिरिभ्यो महित्वा प्रेन्द्रा देविस्वाभुवदा ते आभरतम् शिक्षयम् वज्रबाहू अस्मान् इन्द्राग्निरवतम् सचीभिः जिरेणुतेरस्पजस्तोर्यस्तयेभिस्वभिम् पितरो न आसन्न पुरन्दरा शिक्षयतम् वज्रहस्तास्मान् इन्द्राग्निलवतम् भरेषु वित्रो मरो नामामहन्ता मते दिस्सिन्धु पृथिवी गुरद्यौ परमे अभस्तदूतायते पुनः स्वादिष्ठाधीतिरुदधाय दस्यते अयम् स पुत्र इह विश्वते यस्वाहा गृहस्य तमोदृष्णदर्भवः सौधन् मनादश्च निरश्च भूमनागच्छद विदर्धा सुमृतमासो बदको यत् श्रवयङ्गमसमसूरस्य भक्षणमेकम् सन्तामकृता चतुर्वजम् दिष्टी समीहेतर नित्यन बाघतो भक्ताः सः सन्तो अमृतत्वमानसो भव स्क्षरस्वं वत्सरे तृच्छन्दः क्षेत्रामि भिमास्ते जाने न एकम् पात्र बृभवो देहमानम् उपस्तुता उपमम् राजमाना अमर्त्येषु स्मरिच्छमानाः आमानीषामन्तरिक्षस्य ये पितुरस्तिरवो वाजामर्हन्ति मोरजाः ऋभुम् नयम् कश्च मासानवीयार्वाजे भर्मसोभिर्मसु दधिः युष्पाकम् देवा अवसाहाणि प्रियेभिलिष्टेमृत्सीरसंवता निष्कर्मणो मातरम् पुनः सौधन् वनासस्त्वपस्य या नोजिम्भेयुमाना पितराः कृणोतनो वाच सान्द्रचक्रवादर्णिराजाः तन्ना मित्रावरो नामा महन्ता मदे सिन्धः ततः शङ्कम् सुभ्रतम् विद्मनापस्तक्षम् हरे यन्धवासु दक्षम् पितृर्भ्या भोज भद्वयस्तक्षम् महत्साय मातरम् स च भुवम् आना यज्ञाय यथाक्षया वसर्वा वीरयाभितन्नः सर्धा यथा तथा स्विन्द्रियाम् आरक्षत सातिमस्मभ्या प्रभवः सातिम् रथाय सातिमर्वा ते नरः सातिम् न जैत्रे सम्माहेत विस्वहामदा विमृदाना ऋभोक्षणमिन्द्रमाहूमभूतय ऋभूर्वाजान् जा वरुध सोमापीतये उभामित्रावरुणा नूनमस्विनाथेनो हिन्वन्तु सातये धिजे धिषे ऋभुर्भरायशंसि सातु सातिम् न्नो मित्रोपरो नामहम् कामदेश्यम्भः पृथिवी सुौ कीले ज्यावापृथिवी पूर्वचयित्तम् घर्मम् सुरसञ्जामम् निष्टये याभिर्भरे कारमंसायजिन्वा धस्ताभिरोषुभूतिभिरस्ति नागातम् युवोद्दानाय शुभरा असस्ततो भिर्धियो वधः कर्मजेताभिरोजुभूतिभिरश्विनागातम् युगम् दासाम् दिव्यस्य प्रशासने विशाङ् अमृतस्य मद्मना परिध्वादना यस्य मद्महा माता सोरुषु तरणिर्विभूषाति याभिः स्त्रीमन्तुरभावद्विचक्षणस्ताभिरोषुभूतिभिरस्विनागातम् ताभिम् निवृतम् सितमध्यबुद्वन्ता न मैरायताम् स्वदृशे काभिः कण्ठम् प्रसिरातमावतम् ताभिरोषुभूतिभिरस्विनागातम् याभिरन्ताकम् च मानमाराणे भुज्यम् याभिरम् जसि भजि जिन्वतु याभिः कर्कन्धम् मय्यम् जन्मस्ताभिरश्चिनागातम् याभिः सु चन्द्यम् धनसाम् दूरंसम् सप्तम् धर्म भोम् यावन्तमत्राय ताभिः प्रश्ने कुम्बुरगोत्समावातम् ताभिः रोषभूतिभिरस्थिनागातम् ताभिः श्रीर्मृगणापरामृधम् प्राधान् श्रवणम् चक्षासय ता मे कृतः याभिर्वर्तीता रसिता मम ताभि याभिश्चिन्धुम् वधू मन्दमसश्च तम् वसिष्ठम् जाभिरज रामजिम्बतम् याभिः कुत्सं श्रुतर्यम् नर्यवा वतन्ताभिरोषुभूतिभिरश्विनागातम् याभिर्विश्फलाम् धनसामाधर्यम् सहस्र मेढ आजाभिम्बतम् याभिर्वसा वश्यम् रेणीवा वतन्ताभिषु भूतिभिरश्विनागातम् भिः सुदानो औसिराज वणिजे दीर्घस्रावोषो अक्षरते कक्षीवन्दातार्याभिनावतन्ताभिनुभूतिभिरस्तिनागातम् भी भी या भीरताोदृतो न रस्मय्याभिरथमा वतम् जिषे गाभिस्तुभि रोषुभूतिभिरसिरागतम् काभिस्परावती मन्धातारैत्र भक्त्येष्वावतम् याभिर्मित्रम् प्रभ त्वाजावतं ताभिरोषुभूतिभिरसिरागतम् याभिर्महामातिथिद्वम् का सोऽधिपन्ति वम्बरहत्य आवातम् याभिर्पूर्भिर्ये रसदस्य मावतम् ताभिरोषुभूतिभिरस्थिरागतम् याभिर्वम्ब्रह्मीपि बाणमोपस्तुतम् कलिञ्जाभिर्वित्तजाः लिन्दुवस्य ताः याभिर्य स्वमुत पृथिमावतम् ताभिरोषुभूतिभिरस्थिरागातम् यवेजाभिरत्वा जेजाभिक्लामला मेधातु मे सोः सा विस्तारीराजाताम् स्यूमारस्पजेताभिषुभूतिभीरश्चिनागातम् सा विपठर्वा जठारस्य मद्मथाग्निर्नादीरे जिगयुद्धो अध्मन्ना या याभिः सर्यातमपातो महाधने ताभि रोजुभूतिभिरस्थिनागातम् याभिरङ्गिरोहन दानिरञ्जसोऽग्रङ्गच्चतो विपरे गोहन्म राभिर्म ता। संसूरभिकासमापातम् ताभि रोजुभूतिभिरस्थिनागातम् याभिः पत्नीर्मिमदायञ सुराघवायाभिररुणीरशिक्षतम् याभिस्तु दासा मोहदस्तु देव्या अम्राभि रोटुभूतिभिरस्थिनागातम् दाभिः सन्तादिभव दधा सुरे भोज्यभिरवातो जा जाभिरध्वेतुम् ॐ या वातीं शुभरामृतस्तु भन्ताभिरोटुभूतिभिरस्थिनागातम् नमसाने दुभस्यथो ओजवे याभिर्जो नो अर्वन्तमावातम् अधुप्रियम्भारथो यः सरभ्यस्ताभिरस्थिरागातम् ताभिर्नरम् गोषुयुधम् मृगाय क्षेत्रस्य सादा कार्यस्य जिम्बातः था अवाधो जाभिरर्वतस्ताभि रोजभूतिभिरस्य नागातम् याभिः कुत्सायं साधकृतो प्रदुर्वेदं प्रजातभीतिमा वातम् याभिर्ध्वरन्तिम् पुरुन्ति अब्रस्पती वश्विना वाचा भस्मे कृतन्नो आ दस्रा मृग नामनीषा राज्यो द्येव सेनिपा ये माम् राभवतम् वाच साधौभिरक्तिभिः परे वातमस्मानरिष्टेभिरश्विना सौभागेभिः सन्नो वरुणो मामहन्ता मदे दिश्यन्ध्वः पृथिवी गण राजौ ह्ना अपि वादयमनाः ओ हरिः ओं श्रेक्षम् ज्योतिषा ज्योतिरागाच्चित्रप्राकेतो आजनिष्टविभवा तथा प्रसूरुदासमितः सवाया त्सानुजाेच्छा गादारै दृष्टा सान्यस्याः समागबन्धु अमृते अनोची च भावन्नम् शरद आमि साध्वास्तो नन्दस्त्वमन् स्तदस्तु मे जैलक्तो न सा समान सा निरूपे भास्तादिता चित्रा विदुरो नावः या त्याजगद्यो नो राजौ अच्छ दुषादि गद्भुवाना निविस्ता सिंहस्ये करे ष्टे राजुत्वम्भ्रम्भस्य धुर्मिया विचक्षा भुषा आजे गर्भुवाना निविश्वा क्षात्राय त्वाम् समासे त्वम् महीया इष्टमर्थामित्यै दिशादृशादिताभि प्रचक्षा भुषा आजे गर्भुवाना निविश्वाहा ेषा दिवो दोहि प्रत्यादर्शिभ्युच्छन्ति युवतिः शुप्रवासाः विश्वस्ये सा नापार्थिवस्य वस्वृषो अचेर सुभगेभ्योच्छायतीनामन्मे दिपाथ आयतीनाम् प्रथमा सरस्वतीनाम् युच्छन्ती जीवमोदीरयन्ति समिधेयता भश्चक्षसा सूर्यस्य जन्मानुषा चक्रमाणाेणोजकृ भ्रमप्राह त्यायः समया भवादिया ज्योषुर्याश्च नूनम् युच्चानपूर्वा कृपदेवावसाना प्रतीद्या नादोष मन्याभिरेति ये युष्टे ये पूर्वात रामपश्यन् युच्छन्ति पुरुणसम्मत्या सह अस्माभि परिषुमस्यान् यावयद्मे दारुतमारितेजामरी सूनृतायीरयन्ती सुमङ्गलेर् बिभ्रति देववीति विहाद्यो न श्रेष्ठतमाव्यो च शश्वत्पुरोसदेव्यतो अद्यै्यावो मघोनि ोम्योच्छादुत्तरामनुद्यो नगरामृता चरति स्वधाभिः या अन्त्यभिर्दिवदा सद्योगपकृष्टा निर्मियम् देव्या वः ऋणेभिरस्तैरोषायातिसुजुजातसेन आवहम् दीपोष्याम केतुम् क्रीडुते चेति दाना जीयुषीरीरामुपपादस्वादीनाम् विभावीनाम् प्रथमोढाव्याश्वैत् बुदेध्वम् दीप असु आघात प्राघात्तमार्ज्योतिरेति दी। आरे पन्थाञ्जातसूर्यायागन् न यत्र प्रतिनन्धायोः ो वा न वाचमुदीयति मह्निस्तवा नो रेभ पुनदो विभाति अद्यादुच्छो यस्मे आजन्नि दे देह प्रजावात् या गोपादीरुदसर्पीरा यच्छन्ति दासुरेव मत्या वाजोरेवसुमृता माता देवानामती तेरणीकम् यज्ञस्य के विभाः विभाहिब्रह्माणे नो व्यो उच्छादो जने जनय विश्वमाने यच्छक्रमप्नवृतसो जा वहन्ति जानाय जा समानाय जा भद्रम् अनन्वामित्रो वरो ना मामहन्तामदे दिश्यन्ध्वः पृथिवी उपराद्यौ यिमा रुद्राय तमसे तपद्दिने जयज्जी राजप्रभ रामहेमतीः यथा तमस जपदे च दुष्पदे विश्वम् ग्रामे अस्मिन्नातुराम् रुद्रोदनो वयस्कृधि क्षयद्वीराजनमासा विधे मते गच्छन् जमनोराजे जे भिता तदस्याम तमरुद्रप्रणीतिषु अस्यामा तेषु मतिम् देवयजयाक्षयद्वीरस्य तमरुद्रवीभः नायन्निद्विगो आसृष्टवीराजु हवामते हविः ेषाम् भयम् रुद्रम् यज्ञसाधम् पङ्कुम् कविममासे निष्पायामहे आरे आस्मै जम् हेलोः अस्य तसु हरे भयमश्च व्रेणीमहे विगोप रागम ऋङ्करवर्दिनम् तेषम् रूपम् नमासा निष्पायामहे हस्ते बिभ्रद्भे षया वार्याणि सर्ववर्वच्छर्ति हस्मभ्यम् इयम् पित्रे मनुतामुच्यते वच स्वादो स्वाजी यो रुद्राय वर्धनम् मा स्वाजनो अमृत वर्त भोजे शोकायतनाय मृळा अद्भुतं मान भुक्षन्न भुतमान मुक्षन् नवद मातन मानः प्रियास्तो रुद्ररीरिषः मानस्थोेतन जयमान आजौ मानो गोषु माधो अश्वेषु रीरिषः कीरान् मानो, मानो रुद्रभावितोष्मम् दस्तधमित्वा हवामहे उपदे स्तो मान् पशुपायुव करम् स्वापितर्मरुताम् सुन्दमस्मे भद्राहि स्वयत् समाधा वयमवैत्ते वृणीमहे आरे ते गोघ्नमुदपोर्षघ्नाम् षयद्वीर सुन्दमस्मे ते अस्तु नृणा च नो अवोच मनमोऽस्माअभस्यवश्नो तु नोऽहवम् रुद्रो मरुद्वान् तन्ना भित्रो मरुणो मामहन्तामदेधु पृथिवीमुदद्यौ चित्रम् देवानामुदगादनी तञ्चक्षम् भित्रस्य मरुणस्यामे पृथिवी अन्तरिक्षम् सूर्य आत्मा चुरश्च सूर्यो देवी वृष संरोचमाणाोलयो पश्चात् च कालो देभयन्तो युगाले पितन् फले प्रति भद्राय भद्राम् भद्रा अस्मा हरितस्सूर्यस्य चित्रायतत्वा समाभ्या सह न पस्यन्तो दिवा पृष्टवस्तः परिद्या वापि शिवीयन्ति सद्यः तत्सूर्यस्य देवत्वम् तन्महि त्वम् मध्यागर्ताम् सञ्जभारजेदयुक्तहरितस्तधस्तादाद्राद्रिवादस्तनुतेस्मै तन्मित्रस्य वरोधस्याभिचक्षे सूर्यो रूपम् नृणुते ज्यो नमस्ते अनन्तमन्यषादस्य वादः कृष्णमन्यद्धरितः सूर्यस्य निरङ्गादृता बद्यात् धामित्रोपरो नो मामहम् कामदेश्यन्ध्रपृथिवी भूतज्ञोः सत्याभ्याम् बर्हि वक्प्रविन्दे स्तोमाञ्जभ्ये भवतायमिपदाय जायाम् धेनोहदूरसेन ीलवद्भिराजु एम्बादेवानाम्बा ज्योतिभिः सदाना भद्रास भोरा सत्या सहस्र माजा यमस्य प्रथमे जिगाय उग्रोह भुज्यमस्विनोद मेघेरयिन्न कश्चिन् अमृवा हवाहासन्नोभिराह पन्मजीभयन्दर क्षत्रोद्भिरपोधकाभिः तिस्रः क्षमस्त्रः प्रजद्भ्यर्ना सत्य भुज्यमोत्पदङ्गैः समज्रस्य धर्मन्नाद्रस्य पारे त्रिभीरसैः सतवद्भ्यश्वरस्वैः अनारम्भरे तदा वीरजे दामना यजस्विनाभो सदर्भुज्युमस्तम् स दारित्राम् नावमादस्थिवा सह